मुद्गलपुराणं खण्डं त्रिमहोदरचरितम् अध्यायं ट्वेन्टि नैन् पुरुरवसश्चरितकथनं श्रीगणेशाय नमः मुद्गल उवाच पुरुरवाश्चकारासौ राज्यं भूमण्डलस्य च धर्मयुक्तसुनीत्या पालयामासमानवान् मुनिशापसमायुक्तोर्वशी नृपतिमाययौ कुरुक्षेत्रे चरन्तं स चकमेतां महीपतिः सोवाचपुत्रतुल्यौ मे उरणौ रक्षसि प्रभो रदिं विना स्वदेहं त्वं नग्नं मा दर्शयस्व तदा तगृ राजजन वसाभोजना तथे सदुभूपस्ता संगहम तस्त्र बभूव षडींद्रसमतेजसा आयुर्मायुरमायु विश्वायु तथा प्रभो शतायुस्तायुरेते च नामभिपरिकीर्तिताः चन्द्रवंशकराः सर्वे बभूवुर्जयशालिनः तद इन्द्रेण गन्धर्वा प्रेषिता राजवेश्मनि उर्वशी नयनार्थं वै विश्वावसुपुरोगमाः तैर्माया प्रकृति तत्र रात्रौ तस्याः समाहृतौ पुरणौ च तथा ताभ्यां शब्दाैः प्ररुदिदं भृशं तयोरुदनमाकर्ण्य राजानं रभसा जगौ उर्वशी वीर्यहीनं त्वां न जानामि नरेश्वरम् केन, मम पुत्रो हृद कि मुश्यसि तचनमकर्ण्यक्रोधरू बभूवस नघ्नखडस्यो निर्य भावरवाद विदुत्द त्रमूद तेजसा विद्युतस्तत्र राजानग्नो बभौ गृहे तथा तमुर्वशी दृष्ट्वान्तर्धानं सा चकार वै मेषौ प्रगृह्य गन्धर्वा गदा स्वर्गं विहाय उर्वशी सहिता शक्रम् प्रणेमुर्हर्षसंयुताः राजा स्वगृहमध्ये तां न ददृशद्यशस्विनीं तदा पपादभूपृष्टे काः कृत्वा मुमूर्च्छ सः तदाविधो महाराजो विललापुरुवाहा बभ्रामवसुधां सर्वां मुर्वशी दर्शनोत्सुकः तदो बहौ गते काले वर्षमात्रे दयायुधां कुरुक्षेत्रे पुनस्तां स दृष्टवान् हर्षिदो भवद मां त्यक्त्वा क्व गदासित्वं प्रीयेते भक्तिसंयुतम् अधुना मां गृहाणत्वं त्यजमाचाप्सरो वरे तदस्तेन समयुक्तारात्रिमेकामुवाससा उवाच तं तु राजानं शोकयुक्तं वचोहितम् अहं देवाप्सरो रम्या गन्धर्वाधीनतां गदा अतस्तं पितृयज्ञेन यजत्त्वं त्वं नित्यमादराद तदस्वर्गे च देवासो भविष्यदि महामदे त्वदधीना भविष्यामि नित्यं राजन्नसंशयः तदशोकाकुलो राजा रुरोदादीवदारुणं सा तथा विह्वलं दृष्ट्वोवाच देवाङ्गनाच तम् वर्षे वर्षे च भो राजन्नेकरात्रिं वसाम्यहम् त्वया सार्धं महाभाग तदसान्दर्हिता भवद राज्ञापि तादृशं तत्र कृतं नित्यं प्रजापते तेन पितृगणास्तुष्टा वरं राज्ञे ददौ परम् उर्वशी त्वदधीना महामदे तव नामाङ्गिता देवा श्राद्धेऽस्माकं भवन्तु च भविष्यदि न दधुस्ते पितरो भक्तवत्सलाः ततः स्वल्पेन कालेन भूमिपो निधनं गतः स्वर्गं पुण्यबलेनैव जगामस पुरूरवाः तत्रोर्वशी समायुक्तो बुभुजे विषयप्रियः भोगान् स्वर्गोद्भवान्नित्यं तामवाप्य पुरूरवाः तदो बहौ गते काले पितृलोके गतेन सह नारदेन महीपालो बोधितो दयया विधे नारद उवाच किं राजंस्त्वं महाभागविषयेषु विशेषतः सख्रः पश्य स्वमात्मानं पदिक्ष्यसि न संशयः देहोऽयं बन्धनागारं तत्र त्वं निगधेन च बद्धस्तस्माच्च योगेन बन्धहीनो भवप्रभो पुनः पुनश्च भोगा किं भोक्तव्यास्तादृशास्त्वया न तृप्तिमधिगच्छन्ति जना अज्ञानसंयुधाः ब्रह्मामृतं पिब त्वं च सदा स्वानन्ददायकं पत्यक्वाल्पसुखे सकृतः पदिष्यसि पुनर्ह्यधिः चतुरशीतिलक्षासु नरो भ्रमदियोनिषु तत्र स्त्री पुत्रकाद्यं स लभदेनात्र संशयः मनुष्ययो निगो भूत्वा नरः तत्र ज्ञानं विशेषेण भवत्यत्र न संशयः कर्मार्हो नरदेहोऽयं तत्र योगो न साधितः कदिष्यदि पुनः सोऽपि नानायोनिषु मानदा द्वन्द्वभावमयं दुःखं यत्र तत्र च विन्दति न शाश्वतः स्वरूपं स ब्रह्मभुङ्े किं करोषि महामदे तारयस्व स्वमात्मानं योगेन नरसत्तमनारदस्य वच श्रुत्वा तं जगाद नराधिपः सत्यमुक्तं त्वया योगिन्मया तच्चैव सन्धृतम् अहं विषयदोषेण पीडितोदितरां प्रभो निर्वेदं मे मनः प्राप्तं ज्ञानं ब्रूहि महामुने नारद उवाच गणेशं भजभावेन ततः क्षेमं भविष्यति एकाक्षरविधानेन सर्वेभ्यश्च परात्परं हृदि बुद्धिप्रदातारं बहिसिद्धिप्रदं परं योगाकारं च सर्वत्र संस्थितं ब्रह्मनायकम् चित्तम् त्यक्त्वा महाराज भव चिन्तामणि स्वयम् स ददा वेकाक्षरं मनुं तदस्तेनाभ्यनुज्ञातो नारदः प्रजगामः सोऽपितामुर्वशीं त्यक्त्वा ध्यानसंस्थो बभूवः कालेन स्वल्पभावेन गणपत्यो बभूवः ततः स निन्दयामास स्वात्मानं भृशदुःखितः अहोमयादिमूर्खेण कृतं कर्मविशेषतः भोगदं मोहितेनैव स्त्रीकामेन न संशयः अस्ति मांसमयो देहस्तत्र दुर्गन्धसंयुतः छिद्रं मूत्रगृहं नीचं तत्र सक्तो भवाम्यहं सर्वार्धदं मनुष्याणां देहं प्राप्य मया सदा नरकाधिप्रदं कर्म कृतं नरदेहमवाप्यैव मद्विना को भवेच्छठः स्त्रीसंसक्तो विशेषेण त्यक्त्वा गणपतिं नरः एवं खेतसमायुक्तो बभूव नृपसत्तमः अभजत्तं स्वभावेन गणेशं सर्वसिद्धितम् अन्धे जगामयोगेन गणेशं स पुरुरवाः महिमा कथितस्तस्य पापनाशकरो यतः पुरूरवस आख्यानं यशृणोति नरोत्तमः पापक्षयकरं तस्य भवतीदं प्रजापदे ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते पुरुवसश्चरितकथनं नामैकोनत्रिंशोऽध्यायः ओम्